ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवते महापुराणे सप्तमस्कन्धे द्वाविंशोऽध्याय हे रासवाच स तया नोद्यमानस्तु राजा पुनः पुनः प्रहभद्रे करोमेश विक्रयन्तु सुनिर्घृणहे दृशंसै अपि यत् कर्तुं न शक्यं तत् भ्राजते वाणि वक्तुम् विदृक्तु निष्ठुरम् एवम् उक्त्वा ततो राजा गत्वा नगरमातुरः अवतार्ये तदारङ्गे ताम्भार्या नृपदत्तमहे ततो वाचनमब्रवीत् भो भो नागरिकाः सर्वे तृणुध्वं वचनं मम कस्यचिद्यदि कार्यं स्यात् दास्या प्राणि मम सब्रवीतोत्तरा युक्तो यावत् सन्धारयाम्यहम् ते ब्रवन् पण्डितः कष्टं पत्नीम् विक्रेतुमागतः अजोवाच किं मां पृच्छते कष्टं भो रजंसोऽहं ममानुषः राक्षसो वास्मिकटिरः तथा पापं करोम्यहं तं शब्दं स सूत्वा कौशिकोऽपि प्ररूपदृग बुद्धरूपं समासाय हरिश्चन्द्रम् अभाजत समर्पय स क्रेता धनप्रदः अस्ति मे वित्तमतुलम् सुकुमारी च मे प्रिय गृहकर्म न शक्नोति कर्तुम् भस्मात् प्रयच्छ मे अहं गृह्णामि दासिं तु कति दास्यामि ते धनम् एवम् उक्ते तु विप्रेण हरिश्चन्द्रस्य भूपतेः विदीर्णं तु न चैनं किञ्चिदब्रवीत् कर्मणश्च वयोरूप शीलानां तव योचितः अनुरूपं विदम्बितं गृहाणार्पयमे बलां धर्मशास्त्रेषु यद्दृष्टं श्रियो मौल्यं नरस्य द्वात्रिंशत् लक्ष्मणो लक्ष्मणोपेता दक्षा शीलगुणान्वितः कोटिमौल्यं सुवर्णस्य तथार्वम् इत्याकर्णव च तस्य हरिश्चन्द्रो महीपतिः दुःखे नाम ताविष्टो न चेदं किञ्चिदब्रवीत् ततस्त विप्रो नृपतेः पुरतो वर्कलोपरि धनं निधाय केशेषु धृत्वा राज्ञिम् अकर्षयत् राज्ञी उवाच पञ्चमुञ्चा च मां यावत् पश्याम्यहं सुतम् दुर्लभम् दर्शनम् विप्रे पुनरस्य भविष्यति पश्येह पुत्र मामेवम् मातरम् दास्यतां गताम् मम मास्त्राक्षी राजपुत्र दशजहं त्वयाधुना ततः स्वाल सहसा दृष्ट्वा कृष्टाम् सुमातरम् समभ्य धावदम्बेति वदन् साश्रुविलोचन हे हस्ते वस्त्रम् समाकर्षन् काकप्रक्षधस्खलन् तम् आगतम् द्विषय क्रोधात् बालम् अप्यहनत्र वदन् तथापि सोम्बेति नैव मञ्चतिमातरम् राज्ञुवाच प्रसादम् कुरु भेनाथ ऋणीष्वम् हि बालकम् कृता पिनाहं भविता विनयनं कार्य साधिक इत्थं ममात्मभाग्यायाः प्रसादं कुरु मे प्रभो वच उवाच गृह्यतां वित्तमे तस्ते दीयतां मम बालकः त्रिपुंसो धर्मशास्त्रज्ञै कृतमेव हि वेतनं शतं सहस्रं लक्षं च कोटिमौल्यं तथा परैः द्वात्रिंशत् लक्षणोपेता दक्षाशीलगुणान्विता कोटिमौल्यं तु प्रोक्तम् पुरुषस्य तथार्बुदम् तथैव श्रोतोवाच तथैव तस्य तद्वित्तं प्रक्षिप्तं पटे पुनः प्रगृह्य बालकं मात्रा सैक अबन्धयत् पत गृहं क्षेत्रं तया सह मुदान्वितः तु सा कृत्वा जानुभ्यां प्रणतासिरः बाष्पर्याय कुलादीना त्रिलम्बनमब्रवीत् यदि दत्तं यदि हुतं ब्राह्मण सर्पिता तेन पुण्येन मे भक्ता हरिश्चन्द्रोस्तु वै पुनः पादयोः पतितं दृष्ट्वा प्राणेभ्योऽपि गदीयसीं हा हेति च वदन् राजा विललापय कुलेन्द्रियै वियुक्तेयं कथं दाता सत्यशीलगुणान्विताय वृक्षच्छायापि वृक्षं तं न जहाति एवं भार्याम्बीत्वारस्परं पुत्रं च तम्ब वासेदं मांस मां तम् हित्वा प्रयाचते तादृशं प्रति ओमे ओ मे दुःखं निवारयेत् राजत्यागेन मे दुःखम् वनवासेन मे द्विजहे यत्पुत्रेण वियोगो मे एवं तद्भत् भोग्या हि सदा लोके भार्या भवन्ति या त्यक्तासि कल्याणि दुःखे न विनियोजिता इक्ष्वापुषसम्भूतम् सर्वराज सुभोषितम् माम् ईदृशं पतिं प्राप्य दासी भावम् गताह्यसे ईदृशे मज्यमानं मां सुमर को मामुद्धरते देवि पुराणाख्यानवित्तरैः पश्यते तस्य राजशे कषा घातये सुदारुणैः गात्रयित्वा तु विप्रेषु नेतुम् समुपचक्रमे नीयमानो तु तव दृष्ट्वा भार्यापुत्रोऽ पार्थिवः विरलापाति दुःखातु निःश्योष्णम् पुनः या न वायु न वादित्यो न चन्द्रो न पृथक् जनाः दृष्टवन्तः पुरा पत्नीम् श्रीयम् दासितमागतः सूर्य वंशे प्रसोतोऽयम् सुकुमारे कराङ्गुलिः सम्प्राप्तो विक्रयम् बालो दिङ्मास्तु सुदुर्मतिम् हा प्रियेहा मम नार्यस्य दुर्नय दैवाधीन दशां प्राप्तु न मतोऽस्मि तथापि एवं विलयपतो राज्ञो अग्रे विप्रोन्तरधीयते वृक्षकैः हादिभिः तुङ्गैः तावादाय त्वरान्वितः अत्रान्तरे मुनिश्रेष्ठ मय महातपः शिश्च कौशिकेन्द्रोऽसौ निष्ठुरः क्रूरदर्शनः विश्वामित्रोवाच यात्रयुक्ता पुरा राजं राजसूर्यस्य दक्षिणा ताम्बस्व यदि सत्यं पुरस्कृतं नमस्करोमि राजसे ग्राह्णे मां सुदक्षिणां राजसूर्यस्य यामयोक्ता पुरा नघे विश्वामित्र कुतो लब्धम् द्रव्यम् दक्षिणार्थे प्रदीयते एतरा च राजेन्द्र यथा द्रव्यम् प्रयाजितम् किं मनेन महाभागे कथिते न तवा नघे शोकस्तु वर्धते विप्रे श्रुतेनेन सुव्रते अशस्तम् नैव गृह्णामि शस्तम् एव प्रेच्छ मे राजन् कथयस्व यथा तथम् मया देवी तुसा सा भार्या विक्रीता कोटिसम्मितैः निष्कै पुत्रो रोहिताख्यो विक्रीतोऽर्बुधसङ्ख्यया विप्रैकाद् च कोट्यस्तम् सुवर्णस्य गृहाणवे तद्वित्तं दर्वमालक्ष्य दारविक्रय सम्भवम् शोकाभिभूतं राजानम् कुपितः कौशिको ब्रवितः ऋषिवाच <coughs> राजसो यस्य यज्ञस्य नैषा भवति दक्षिण अन्यदुत्पादय क्षेत्रं सम्पूर्णा येन स भवेत् क्षत्रबन्धो मम मां तम् सदृशीं यदि दक्षिणाम् मन्यसे तर्हि तत् क्षिप्रम् पश्य त्वं मे परं बलम् तपसोऽश्चतप्तस्य ब्राह्मणस्य मरस्य च मत्प्रभावस्य चोग्रस्य शुद्धस्य जैनस्य च अन्यद् दास्यामि भगवन् काले कश्चित् प्रतीक्षताम् अधुनैवाचिक्रीता पत्नी पुत्र च बालकः विश्वामित्र उवाच चतुर्भस्थितो दिवसस्य नराधिप एष एव प्रदीक्षो मे वक्तव्यं नोत्तरं त्वया इति श्रीमद्देवी भागवते महापुराणे चादृश संहितायां सप्तमस्कन्धे हरिश्चन्द्रस्य पत्नी पुत्र विक्रयवर्णनं नाम, नाम द्वाविंशोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु